मुद्गलपुराणं खण्डं 6 विकटचरितम् अध्यायम् 7 स्वानन्दक्षेत्रस्वरूपवर्णनं श्रीगणेशाय नमः शक्रय ऊचुः अहो शक्ते महाचित्रं चरित्रं मुख्यकं श्रुतं भृशुण्डिनश्च सन्तुष्टा वयम् जादानसंशयः अधुना मुनिदेवानां संवादं वदसौख्यदम् यत्र विघ्नेश्वरस्यैव ज्ञानम् सङ्गीयते मलम् आदिशक्तिरुवाच शृणुध्वम् शक्तयः सर्वाः पुरावृत्तम् कथानकम् सर्वपापहरम् पुण्यं सर्वसिद्धिप्रदायकम् भृशुण्डिवचनं श्रुत्वा हर्षिता शङ्करादयः ऊचुस्तं प्रणिपत्यैव वृत्तान्तं पूर्वसम्भवम् शिवादय ऊचुः कोऽसौ गणेश्वरस्वामिन्नरकुञ्चरवेशभृत तस्य ज्ञानं वदस्वत्वं कथं चित्तप्रचालकः भृश्युण्डीरुवाच संयोगवाचकप्रोक्तो गकारश्च नकारः अयोगात्मकसंज्ञो वै तयोस्वामी गणेश्वरः अविनाशिपदं वेदे प्रोक्तं तद्गजवाचकं मस्तकं तस्य देवेशा ज्ञातव्यं नाश्यवद्विश्वमे दद्वै तदेव देहरूपकं कण्ठादो नात्र सन्देहस्तयोर्योगे गजाननः चतुः पदार्थरूपाश्च भुजास्तस्य महात्मनः चतुर्भुजस्तेन साक्षाद् गणेशः परिकीर्तिदः तस्य महात्मनः जीवात्मानाद तर तस्यो दिवदो गणराजोध कथ्य तेन त्योदरात्त्पन्न जगद्रह्म महेशाकथितसौ गणेश भ्राद गणराज मिधि प्रकीर्ति वानूप बभूवे योगी पंचचितमयी साक्षा बुद्धिभ्राधरा परा दक्षिणांगा गणेश निसृता तयो स्वामी गणेशानो योगशान्तिमयस्वयं भक्रवत्सलभावेन देहधारी बभूवः स एव ज्ञानगोदेव भवतां कार्यसिद्धये बभूव तं भजध्वं तु तेन सर्वं शुभं भवेद श्रुत्वैवं विस्मिता भूत्वा देवे शास्त्रं प्रणम्यतु ऊचु विस्मितचित्तास्ते गुरुं भ्रुशुण्डिनं वचः ब्रह्मादय ऊचुः त्वं साक्षाद्गणराजो वै शुण्डादण्डविराजितः अस्माकं गुरुराद्यश्च बोधदादर्नमोऽस्तु ते त्वदीयवचनेनैव गणेशार्थविचक्षणाः जादा वयं महायोगिंस्तद्भक्ता सार्थका प्रभो अधुना वद माहात्म्यं भजनस्य विशेषदः तत्र स्थानम् च मन्त्रादिविधियुक्तम् महामुने भुष्युण्ड्युवाच समाधिना भवन्तोऽपि गदा पुरा महेश्वराः भेदाभेदादिहीने दुब्रह्मणि तन्मयत्वदः अधुना दण्डकारण्ये तादृशं क्षेत्रमुत्तमम् स्वानन्दाख्यं च तत्रैव तपध्वं गणपेरतः मूर्तिं कृत्वा गणेशस्य दृष्टां स्वहृदितादृशीं पूजयध्वं विधानेन तदसिद्धिमवाप्स्यथ महायोगी महा भक्त राजेंद्रो देवे दास् जगुपुन शिवाद्या ऊचु क्षेत्रम स्थित विप्र प्रलये समुपस्तिदे। कीदृश्यं तस्य माहात्म्यं वद योगीन्द्रसत्तमा तत्र मूर्तिपुराकेन स्थापिता गणपस्य च किमर्धं भूमिसंस्थोयं गणेशसं बभूवः तत्र सिद्धिं समाजग्मुसेव्यविघ्नेश्वरं नराः माहात्म्यं तत् समाचक्ष्व सर्वज्ञोऽस्सि महामुने गणनाधेन साक्षात्त्वम् दर्शितो गुरुरादराद वयं शिष्यास्त्वदीयाश्च शाधिसर्वान् हिदायनः तेषाम् वचनमाकर्ण्य भृशुण्डी पुनरब्रवीद गानपत्यविचारज्ञ सर्वशास्त्रार्थतत्त्वविद भृशुण्डिरुवाच क्षेत्रं गणेश्वरस्यैव त्रिविधं परिगीर्तिदं तेषाम् भेदं प्रवक्ष्यामि शृणुध्वं त्वेकचेतसः स्वर्गे शम्भुगृहे चैव पादाले शेषमन्दिरे पृथिव्यां तु मयूरेशक्षेत्रं विघ्नपदे स्मृतं तत्र कर्मप्रसिद्ध्यर्थं भूमिगं शाश्वतं सदा वक्ष्यामि तस्य माहात्म्यं ब्रह्माकारस्य देवपाः प्रकृतिसर्वरूपा तु पुरुषश्चात्मसञ्ज्ञकः तयोः संयोगभावे स्वसंवेद्येन योगेन लभ्यते मानवैपरं तदेव गणराजस्य क्षेत्रं जानीत भूमिगम् अत्रैव संस्थितसाक्षात् गणेशो योगवाचकः तेन संरचितं स्वस्य मायया ब्रह्मदायकं तस्य रूपं कथयितुं निजानन्दं न शक्यते सर्वक्षेत्रसमयोगो ज्ञातव्यं क्षेत्रमुत्तमं तदस्वस्येच्छया देव गणेशेन स्वमायया सृष्टं च तस्मात् क्षेत्रात् खेलनभावदः पश्चिमाङ्गादसद्रूपं ब्रह्म शक्रिमयं परं निःसृतं तद्विधा जातं स्वभावेन महेश्वराः रदिर्भोगमयी प्रोक्ता कामः सर्वप्रमोहकः भोक्ता समयोगे द्वारं तच्च प्रकीर्तितं कृदि सर्वजनानां या रदिरुत्पद्यते परा तया मोहिदचित्तास्ते भ्रमन्ति विषये रताः तत्र चालकरूपेण संस्थितः पुरुषो महान् कामस्तेन जनाः सर्वे नानाकार्ये परायणाः भोगो यस्य तथा भोक्ता मोहहीनौ यदा हृदि तदा शाक्तं लभेत्सोऽपि ब्रह्मा सद्वाचकम् परम् तेन द्वारेण विघ्नेशं साधयित्वा च योगिनः गच्छन्ति तेन देवेन्द्राद्वारं शास्त्रे प्रकथ्यते उत्तराङ्गाद्गणेशस्य समुद्भूतं स्वभावतः ब्रह्मसौरं सदा सत्यवाचकं देवसप्तमाः तदेव द्विविधम् जातम् कर्म ज्ञानप्रभेदः इच्छया गणराजस्य तच्छृणुध्वम् विधानतः कर्माधारम् जगत् सर्वं कर्मसृष्टम् प्रवर्तते अन्ते कर्मगदम्भावि शास्त्रेषु तन्मयत्वदः आधारात्म गभावेन संस्थिता धरणी परा कर्मरूपा महामाया कर्मू महाम संूर्यिनी वराहोज्ञानूपास कर्मजाषु ठे तो रविवाचकः कर्मयोगयुधा केचित् केचित् ज्ञानपरायणाः भ्रमन्दिद्विविधे भावेयन्द्रिदा मोहसंयुताः कर्ममोहं परित्यज्य ज्ञानमोहं तथा जनः तयोर्योगे मृदं ब्रह्म प्राप्नुयात् रविवाचकम् अथवा सौरमार्गेण लभ्यते भक्तमुप्यकैः तदेव द्वाररूपम् वै वदन्ति गणपस्य च तेन द्वारेण योगीन्द्रागच्छन्ति ततो गणेश्वरस्यैव पूर्वाङ्गान्निःसृतं परं ब्रह्मानन्दमयं पूर्णं समभागप्रकाशकं सत्यासत्यात्मके देवाः समरूपेण संस्थितं वैष्णवं सर्वमान्यं तु तदेव द्विविधम् बभौ लक्ष्मी शोभात्मिका प्रोक्ता यशोरूपा विशेषतः द्विविधं शोभया युक्तं कृतं तया विशेषतः लक्ष्म्या समदा कुत्र दृश्यते दे देवसत्तमः शोभा परमामाया मोहदा कथ्यदे बुधैः यत्र लक्ष्मीश्च तत्रैव यश सर्वं प्रतिष्ठितम् भुक्तिमुक्त्रिमयी साक्षाल्लक्ष्मी सर्वत्र पठ्यते तस्याश्चाल्लकरूपश्च विष्णुः साम्ये व्यवस्थितः आनन्दभुग्विशेषेण द्वन्द्वमायाधरो बभौ तयोर्योगे समाकारं ब्रह्मवेदेषु पठ्यते आनन्दवाचकं विप्राय वैष्णवैः प्राप्यते परं गणेशप्राप्तये देवाद्वारमानन्दधारकं तच्छक्षेत्रस्य पूर्वाङ्गं गणेशस्य प्रकथ्यते ततो दक्षिणभागाद्वै ब्रह्मा व्यक्तमयं निःसृतं नेदि कर्तृत्वा नेदिरूपकं तदेव शाङ्करं ब्रह्म सहजं सर्वसम्मदं मायया तद्विधा नरनाजी स्वभावदः। स्वभावकः स्वेच्छारूपा महामाया पार्वदी कथिता बुधैः इच्छया त्रिविधम् स्वस्यासृजदे सान संशयः तत्र मोहविहीनश्च शङ्करः कथ्यते परः स्वाधीनश्चैव भक्तेभ्यश्चतुर्थम् ब्रह्म उच्यदे तयोर्योगे महेशानाम् ब्रह्म व्यक्तम् प्रकीर्तितम् द्वारं दक्षिणगन्तेन लभ्यते गणनायकः चतुर्णां चैव संयोगे स्वानन्दः परिकीर्तितः स्वसंवेद्येन योगेन लभ्यते योगिभिः परः तदेव गणराजस्य क्षेत्रं स्वानन्दवाचकम् युदं प्रोक्तं चुर्द्वा प्रोदिप्रदायक ओं वनिषदि पुराणोपनिषदिश्रीमद्दे महापुराणे ष्ठे खंडे विकटचरि स्वानंदेत्रस्वूवर्णन नाम सप्तमोध्याय ओ